देवे प्रपन्नाति हरे प्रसीद मातर प्रसीदमातर्जगतोऽखिलस्य प्रसीद विश्वेश्वरि पादिवेश्वरं कवेश्वरे देविचरा नयतस्त्वमेका महेश्वरूपे नयतस्थितासे अपां स्वरूपस्थितया त्वयित आज्ञायते गृहे भमदं भवेर्येन् संभये Satsang with Mooji ab श्रेष्ठे स्थितिविनाशानां शक्तिभूते स्तनातने गुणाश्रये गुणमये नारायणे नमोस्तुते शरणागतदेनात् हेश्वरे स्वरूपेण नारायणे नमस्तुते मयूरकुक्कुटवृत्ते महाशक्ते धरे नघे कोमारेरूपसंस्थाने नारायण चक्रगदाशार्ग गृहेतपरमायुधे प्रसीदवैष्णवीरूपे नारायणे नमो स्तुते गृहेतो ग्रमः यनोज्वले हरे चेन्द्रि नारायणे नमोऽस्तुते शिवदूते स्वरूपेण हतदैत्यमहामले ष्ट्राकरालवदने श्रोमाला हि भूषणे चामुण्डे मुण्डमथने नारायणे नमोऽस्तुते लक्ष्मीलज्जे महावेदे धे पुष्टेष्वधे ध्रुवे महारात्रि महामाये नारायणे नमो स्तुते मेधे सरश्वतिवरे भूते वा नियते त्वम् स्वरूपे सर्वे से समन्विते भयेभ्यस्त्राशिनो देवी दुर्गे देवी नमोऽस्तुते एतत्ते वदनं सौम्यम् लोचनत्रयभू पातु न सर्वभूतेभ्य कात्यायरे नमोऽस्तुते ज्वालाकरालमत्रो भ्रमशेषा सुरसूदनम् त्रिशूलं पातिनो भीते हीनश्चिदैत्यते जांसे स्वनेनाप्रयजा जग सा घण्टा पातु पातुनो देवी पापे सुरासिंहसा पङ्क चचितस्ते करो ज्वरः शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् रोगान् रुष्टा मान् शकनानभीष्टान् स्वामाश्रितानां न विपन्नराणाम् स्वामाश्रिताशात् श्रयतां प्रयान्ति एतत् कृतं यत्कदनं प्रयाद्य धर्मद्वसां दे विमहाशुराणाम् रूपै अनेकैर्बहुधात्ममूर्तिं प्रीत्वां विकेतप्रकरोति का विद्याशुशास्त्रे सुविवेकदीपे ेषु वाक्ये सुचकात्वदन्या मम त्वगर्ते महान्धकारे तदते भवेष्व रक्षांसि यत्र प्रविशासनागा यत्रा शुभनानि यत्र दामानलो यत् प्रत्यथाभिमध्ये तत्र स्थिता त्वं परिपाशिवेश्वं विश्वेश्वरे विश्वे नम्रा देवे प्रसीद परिपादिनाय देवि विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिकाधा भवति स्वेशवन्द्या भवते भवन्ति विश्वाश्रयाय प्रसेद परिपा देवी प्रसीदपरिपालयनोरभीते नित्यं यथा सुरवधा दधुनैव सद्य पापानि सर्वजगतां प्रसमं नयासो उत्पाक्तपाकजनिता समहोपसर्गां प्रणतानां प्रसीदत्वम्